ो नमाधिरमं सुमस्मै शिरो दासस्य नमो चैर्मसायन् प्रणावह्नमीम्साव्यम् ससन्तम् वृणग्राजासविषासम् स्वस्ति दिवि प्रोरही मायस्य दृढाः पुरो वज्रे अप्रभृष्य ऋजिष्वदात्रम् दासुवेदाः स वेदसम् दशमाजम् दसो निन्दो दिविन्द्रस्व भिष्टिसुम्नः आदुग्रम् सस्वधिभञ्जोदानाय पातुर्नसीमुपासृजा सीम् श्रुतो भनते अप्रातीतो बिभ्रद्वज्रम् गभस्तौ छिष्ठध्वरि अध्यस्ते भगत्ते वचो युजा महद इन्द्रविश्वम् स ते मते वा यज्ञे सप्त यत्पुरः सर्मसारदीर्धर्ध्वन्दादेः पुरुगुत्साय काव्याय त्वन्धुरिन्द्रधुनी मनो रवसीरानस्रवन्तिद्रमती सुरपर्षि पारया दुर्भसंयुम् स्वस्ति तव गत्येन्द्रविश्व दीतयदितोभ्यं सोमे सन्नन्दभेदे अर्कैः इमावृत्त्वा मृतमस्य कारो रहविलम् वीरहव्याहवन्ते धियो रचेष्टा भजरन्नवीयोरयिर्विभूदिरीयदेव तस्या तमस्तु रैन्द्रम् योगिलानो गिर्वाः सङ्गेर्भर्यवृद्धम् यश्चरि भवति बह्ना वृथिव्याः पूर्णमायस्य हरिचयि त्वम् वयनम् चकार कदा देवक्ता अमृतस्य भावे रक्षन्तो न मीनन्ते स्वभावः यस्ता चकारीम् द्रः कमाजलम् जलविकासो भिक्षु अस्ते यज्ञो मनशे संवरा यगो अर्क इन्द्रगतमः सहोदा या हि देवे विगतः पुराजा रत्नाद आसु पूर्गत्सहायः ये मध्यमाद उत नूत नास उदा भमस्य पुरुहूत बोधि तम् रक्षन्तो ब पच्चामधिरब्रह्मवाहोजा देव विद्मता त्वा महान्तम् अभित्वापाजो रक्षसो विदस्थे महीजज्ञानमभितत्सुतिष्ठ तव क्रत्रेण युज्ये न सख्या वज्रे न दृष्ट्वा अपदानूदस्व स दश्रोधेन्द्र नूतनस्य ब्रह्मण्यतो वीरकारुधारः ौपरेष्टौ रोदेव रोनम् मित्रमिन्द्रम् मरुतः कृष्णावासेनो अद्य प्रभोषणम् विष्णोमग्निम् पुरम् धिम् सविदारमोषधीः पर्वतांश्च त्वा पुरुसागप्रयज्यो जितारो अभ्यर्थम् तर्कै श्रुतीहमाहूभतोः बाणो नत्वा वादस्ति नो महावाचमुपाहि विद्वा विश्सेभिः सूनो सहसो यजत्रैः ये अग्निजह्वारे दशा आसुर्ये मनुम् चक्रुपन्दसाय स नो बोधिपुरजेता सुखेषु तदुर्गेषुपधिकृद्विदानः ये अश्रमासपुरभोपयिष्ठास्तेभिर्न्न इन्द्राभिवक्षिवाघे यद्धव्यश्च ऋषणीनामिन्द्रान्तर्भिरभ्यर्च आभिः गःपत्य देवषभो वृक्ष्यावान् सद्यः सत्त्वा पुरुमायः सगस्वान् पूर्वे पितरो नवग्वा सप्त विप्रासो अभिवादयम् वः ददूरिम् वर्वजेष्ठामद्रो भवाचिविश्वम् तमीमहेन्द्रमस्य राजः पूर्ववीरस्य नृपतः पुरुक्षोः जो अस्क्रीधोजिरजरः स्वर्वान्तमाभजहरिवो मादयध्ये तन्नो विवाचो यदि देवरादिज्यरितानदः सुम् भागः किम्बो द्रखिद्वः पुरोहोदपूर्वम् रच्छन्ती वज्रागस्तम् रथेष्टामिन्द्रम् वेद्वी वरीयस्य लोगी विग्राभम् नो वि कूर्मिम्रभोदाम् कातुमीषेण क्षेतुम् रमच्छ जम् मायया मामृधानम्बलः पर्वोदाचिद्वीरिदासोजो रुजो तम्भोधिया नव्यस्या समिष्ठम् रत्नम् रत्नवत्पादम् दयधे स नो वक्षदलिवारः शुब्रह्मेन्द्रो विश्वान्यदि दुर्गाणि आयनाय दुःखाणि पार्थिवानि दिव्यानि दीपयोऽन्तरिक्षा तपा वृडन् विश्वदो दिशाताण् सोजक्षापश्च भुभोजनस्य दिव्यश्च राजा पार्थिवस्य जगदत्त्वन्दृगे दृष्टभज्रम् दक्षिणयेन्द्रहस्तविश्वाया यतमिन्द्रणः स्वस्त्यम् स्रदूर्याय बृहति ममृद्धाम् यादान्यार्याणि वृत्राकरो वज्रन् सुनाघोषाणि स नो निजुद्भिः पुरुहूत वेधो विस्तवारा प्रयुज्यो न या अदेवो वरदेन देवा निर्यायितो य माध्यदृग् सुरयि त्वम् निमिश्रयन्द्रतो मे स्तोमे ब्रह्मणि दस्यमान उक्ते यद्वा युक्ताभ्याम् मघमङ्गलिभ्याम् बिभ्रद्वज्रह्मोनिन्द्रजासि यद्वा दिविवार्ये सुन्द्रवृत्रहत्येव शिशूरसाधौ च द्वालक्षस विभ्यषो अपिभ्यदनन्धयः श्रद्धतयन्द्रदस्यून् पादासुदीन्द्रोऽस्तु सोमम् नृणेणीरुग्रोजरितारभूमि कर्ता वीरायसुष्वायवलोकम् दातावतस्तु मते कीरये गन्ते यान्दिराहरिभ्याम् बभ्रिर्वज्रम् अपि सोमम् दीर्गाः ीरम् नर्यम् सर्ववीराम् श्रोताहवम् गृणतस्तोमा बाहाः अस्मै वयम् यद्वानदद्वीपे मेन्द्राययो नः प्रदिवो अपस्तः सुतेजो मे स्तुमधिन्द्राय ब्रह्मवर्धनम् यथा सत् ब्रह्मा निज गृहे वर्धनानि तावत् प्र इन्द्रमतिभिर्विविष्मः श्रुते सोमे सुतपाः सन्तमालिरान्द्रिया स्वक्षणानि यज्ञैः स नो बोधिपुरोलाभ्रा नापि पातु सोमङ्गुरुजिगलेन्द्रेदम्बर्हिर्यजानस्य निरङ्ग्रे धृत्वा जगौ लोकम् समन्द स्वाह्यनिर्दोषमुग्र प्रिज्ञासा जिमे अश्रुण्वन्तु प्रेमे आत्वेयम् धीरवाज इन्द्रयं या संवत्स काकः संयथा सुमेऽभिरीम् वृणता भोजमिन्द्रम् कुवेत्तस्मासदिनो भरायनष्न्द्रो वासे मृधाति ये मेदिन्द्रः सुते अस्ताभि सोमे भरद्वाजे रक्षयतिन्मघोनाः जनित्र उदसूरीरिन्द्रो राजो विश्ववारस्य दाता ऋमदयिन्द्रे दा श्लोकमुक्ता सासो मेढुसु तपारिजीषी अर्चत्रो मघवानृभ्य मुक्थैर्दुक्षो राजा गिरामक्षीरोधिः तदो दर्वीरो निर्यो विचेता श्रोताहमम् गणमुर्योदिः वशस्वन्तो नलाङ्कारुधाया वाजीस्तुतो विदधे दादिवाजम् अक्षो न चक्र्योऽस्तु न बृहन्पते मह्नारीरिचे रोदस्यो वृक्षस्य रुदे पुरुहूतभयाव्यदयोरुहृन्द्रपूर्वी सतीवतस्ते पुरुषा गसा गागभामिव श्रुतयः सञ्चराणि मत्सानाम्न लन्तयस्त इन्द्रदा मन्वन्तो अधामानः सुधामन् अन्ययर्वरमण्यदुस्वोऽसश्च सम्मुहूराचक्रेन्द्राः मेत्रो नो अत्र वरुनश्च भूषारु योपसनश्च मर्येतास्ति यत्त्वदा वो न पर्वादस्य वृक्षादुःखेभिरिन्द्रालयन्त यज्ञैः तन्त्वाभिस्तुष्टतिभिर्वाजयन्त आजन्नजग्मर्गिर्वाहो अश्वा गज्जरन्ति शरदो नमासारद्याप इन्द्रामवकर्षयन्ति रद्धस्य जद्वर्धतामस्य तनोस्तोमेऽभिरुक्थैश्च दस्य माना ेन स्थिराय न शब्ददे तस्योदायस्तवान् अज्रागिन्द्रस्य गिरयश्च घृषा च भवति गाधमस्मै गम्भीरेण उरुणामत्रिन्द्रेषोऽतपावन्वायान् स्थाषु ऊर्ध्वभूति अरीषण्यन्नक्तोऽर्व्योष्टौ परीदज्ञायाम् स च स्व नाजमव से अभीक इतो वातमिन्द्र पाहि रिषः अमाचैनमरण्ये पाहि रिषो मदे सदहिमा सुवीराः यागभूतिरममाजापरमायामध्यमेन्द्र सुष्मिन्नस्ति काभिषुभृद्रात्येवीर्णयेभिर्धमाचैर्महान्न उग्र आभिस्पृथोऽभिषतेररेषण्यन्न मित्रस्य व्यथयामन्यमिन्द्र आभिर्विश्वाभिरुजो विषोचीरार्यायविशोपदारीर्वासीः इन्द्रयामया उत येजामयोर्वाचीरासो मनुषो युयुज्रे त्वमेणाम्बिधुरासवांसि जहि वृष्ट्यानिकृणिही वराचः शूरो बासूरम् वनते शरीरैस्तनूरुजातरुषियन्वैदे लोके भाकोषुतन येश सत्सु विक्रन्दसीर्व सुब्रवैदे न हि त्वाशूरोनदुरोनधृष्टरुणत्वा योधो मन्यमानो युजोध्वा प्रत्यस्तेषाम् विश्वा जातान्यभ्यसितानि समात्यर उभयोर्नम्नमयोर्ेधसः समिधेहवन्ते नृत्रे वा महो नृपदीक्षये भाव्य च स्वन्ता यदि विदन्तसैते अथस्माके चर्षरयो यते जालिन्द्रत्रातोदभाव अस्माकासो ये नृतमासो अर्य इन्द्रसूरयो दधिरे पुरो नाः अनुतेदाजिमह इन्द्रियाय सत्रा देवि स्वमनोरत्रहत्ये अनुक्षत्रमनुसहो यजत्रेन्द्र देवेऽभिरनुतेष्ये ये मा नस्पृत्समाजा समत्सिन्द्रानन्धिमी दतीरदेवी विद्यामवस्तो न बा भरत्वाजा उदत ृधीरायन्द्रित्वा महोपाजस्य सातौ वासूरसाता उग्रह्णो भक्त्वा दे अहन्दाः त्वाम् वाजीहवजिरेयो महोपादस्य गद्यस्य सातौ त्वाम् ऋत्रेष्रुत्रम् त्वाम् षष्टे मुष्टिहा गोषु युध्यन् म् कविम् चोदौ धातुषेवं शिरो अमर्मणः पराह्नदि करिष्यन् त्वम् रथम् प्रभारो योधमिषमा वो युध्यन्तम् ऋषभन्द सद्यम् त्वम् दुर्गणम् वेदस त्वन्द दुःखमिन्द्रबर्षणा कप्रयच्छता सहस्रा सूरदर्शि अबिरेर्दासंवारम् भो दिवो दासञ्चित्राभिरूधि ताम् श्रद्धाभिर्मन्दसारः सोम्ये यद्दभीतान्द्रिष्व त्वम् रजिम् विषीनचेतसस्याम् शाक्यम् सहस्रा सच्चासान् अहञ्चलसत्सूरिभीरालस्या वध्याया इन्द्र सुम्नमोजाः त्वया यस्तवन्ते सधवीरवीरास्त्रिवरूधे रहोराजविष्ट भयन्ते अस्यामिन्द्रद्युम्नहो तौषायस्यामयिनः प्रेष्ठाः प्रातर्धनिः क्षत्रश्रीरस्तु श्रेष्ठो किमस्य मदे किं वस्य बीताविन्द्रः किमस्य सख्ये चकारः बाजे निषदिचिन्ते अस्य पुरा वीविन्द्रे किमुनूतनाथः सदस्य मदे सद्वस्य बीताविन्द्रः सदस्य सख्ये च कार रणाः बाजे निषदिचिन्ते अस्य पुरा वेविद्ये सदुनूतनाथः न यिजदेघवन्मघवत्त्वस्य विद्या न राधासो राधसो नूतनस्येन्द्रणकेर्दधृश इन्द्रियन्ते एतत्यन्त इन्द्रियमाचेदयेनावधीर्वरशीखस्य शेषाः वज्रस्य यद्वाः सुनात्येदिन्द्रप नमो ददा न्द्रो वरशीखस्य वर्तिने जायमानाय शिक्षन्धरीयुवीयाया हन्पूर्वे अर्धेऽभियसापरोदत् तम् तच्छदम् वर्मिणा इन्द्रसागम् यव्यावत्याम् पुरुहोदश्रभस्या द्वितीयः सर्वे पत्यमाना पात्राभिन्दानान्यथान्यायन् वरुडासूयवसु होषु शरतो प्रेरिहाना सञ्जयाय दुर्वसम्भरादाद्वितीवतो दैवपादाय शिक्षन् रथिनाभ्यम् श्रलिङ्गा मधू मातो मघवा मह्यम् सम्राट् अभ्यावर्ती चायमानो ददातिसूना देयम् दक्षीणा पार्थवाना आगामो अग्न्नृतभद्रवक्रान्ते यन्तु रूपायुगानाः इन्द्रो यज्वाणते चिक्षुपे ददायमितस्य बद्धजन्नभिन्ने खिल्ले मयम् दिनत भाधितस्कारो नामिन्द्रोम् यथिरा दर्शति देवांशजाभिर्गज देतो गिताभिस्सज देवोपदिस्सह न ता अर्वाहारेणुकाटो अश्रुतेन संस्कृतत्रमुभजन्ति ता अभि मुरुगायमभयन्तस्य ता अनुगाभो वक्तस्य विचारम् धियज्वानः गावो भगो गावो मे अच्छाङ्गावः सोमस्य प्रथमस्य भक्तः इच्छामि धृतान्द्रम् यूयङ्गा भोमेत यथा कृसम् चेत श्रीरञ्जि सुप्रदीकम् आद्राम् गृहम् भद्रवासो बृहद्वोपया उच्यते सभासुमादिवासम् विशन्ति श्रुद्धासु प्रपाते पृशन्ति मा हस्तेन येषपरी वो हेन्दी रुद्रस्य वृद्ध्या उपे नोपर्चन वासुकोषुपवृत्ता उपर्षभश्चेन्द्रीरे भद्रान् नो अपि वादश्रमणाः ॐ हरि ओ ख्याय देवर्महोयन्तः सुमदये च कानाः महो यिजाता वज्राहस्तो अस्ति महामुरन्नमसे यजध्वम् आयस्मिन् हस्तेर्या विक्षुरारथे हिरञ्जये रथेष्टाः आरस्मयो गभश्चन स्वासो मो युजानाः श्री देवादातु वा स्वा अन्नने च विषयोम् पञ्चदेशी ब्रह्मकारा उक्ता सुन्दरम् तो देवपादतमा े अन्तः स वा दोधा यस्य विदुवा बधेरोदी महित्वा आता सूरिः प्रेणति तु जातो योधे वाप्सु समीयमानभूति एमेन्दः सु भव ऋश्वो अस्तुती अनूतीवाहि जातो असमात्यो जाः पुरुच वृद्राह भूजये द्वायको अजुर्योदाय प्रीरिजेति भयन्द्रः पृथिव्या प्रतिरोदीभेधा मन्ये बृहदसूर्यामस्य यानि साधारण किरामीनाति जिवे दिवे सूर्यो दर्शतो भोद्विसत्त्वान्यसुत्र ो नदीनाम् चोरगो धातुमिन्द्र निपर्वता दृढानि शुक्रतोरजांसि सत्यमित्तन्न त्वावा वाण्योऽस्तीन्द्र देवो नवद्यो ज्यायान् अरण्ययिम् परिजया नवन्नो वा दृजो अपो अच्छा समुद्राम् बिदु। ीरिन्द्रदृढवारुजः पर्वदश्चीनाम् साकम् सूर्यम् जनयन् जामुसम् अभूरेको रजिपतेरजीनामागस्तयोरधिथा इन्द्रकृष्टिः वितोके अभ्युत नये च सूरे गोचन्तजर्षणयो विवाच तद्भियेन्द्र पार्थि वाणि विश्वाच्यूदादिचि च वयम् ते रजांसि या वा क्षामा पर्वदासोपनानि विश्वम् दृढम् भजते रद्वन्नादे तम् मुत्सेलाभितुष्टामिन्द्रासुषम् युध्य गुज भङ्गविष्ठौ तथा प्रभित्वे अथ सूर्यस्य मुराजश्चक्रम ं सदान्य पुरोजगन्था प्रतिनिदस्यो अधिक्षो या सतीय सम्भते शूतक्रे भरद्वाजाय कृणते वसूनि ससत्यसत्पन्महरेणाय रसमादिष्टर्णभीमम् यायि प्रापचिन्नवसोपमद्रिक्जश्रुतश्रावय चर्षिभ्यः अपूर्व्यापहृतवान्यस्मै महे वीराज तपसे तु राज विरप्सिने वज्रुणे सन्त वा निवचाम् श्यासा स्थलीराजदक्षम् समातरा सूर्येनाकवी नाम वासयद्रुजद्रिम् गृणानः स्वाधीभिर्विक्पाभिर्वामसानवु दुःस्मिया नाम स्मितम् निदानम् सवन्नेभिर्विक्वभिर्गोढदस्वन् विरज्ञोभिक् पुरुकृत्वा जिगाय पुरः पुरोहासखीभिः सखीयम् दृढारु रोचकविभिः कविः सन् स नीव्याभिर्जरिजारमच्छा ममोवारेभिर्महद्भिश्चतुष्णैः गुरुगीराभिर्भृडभक्षि नामागिर्वनः सुविराजः प्रजाहि सर्गे सवसा धै रमयिन्द्रो दक्षिणतस्तूरा प्रभृष्यम् यगोजेष्टयन्द्रतम् सुमो धावो वृणम् स्वभिष्टर्दास्वान् सोमस्यो वृत्रा समत्सु सासहधमित्रान् ी ईन्द्रवसेविवाचो भवन्ते दर्शनय सूर सातौ त्वम् विप्रे धर्विप्रणीन्द्रो जगित्स नीता वाचवर्वा त्वनुदामिन्द्रोभयाङ्गमित्रा वृद्राण्यार्या च सूर ने वसुधीदे विदर्केया स त्वम् न इन्द्राकावाभिदूतीर्हा विश्वायुरविता वृधे भूः स्वर्गादायध्यया मदित्वायुध्यन्तो नेमधीता मृत्सुसूर नूनम् न इन्द्राभरजवा उतनो अभिष्टौ इच्छाघनन्दो बहिरस्य धर्मन् द्विश्यामवार्ये गोढमा सञ्जत्वे जगुर्गिर इन्द्रपूर्वेर्विषद्वर्गम्भो मनीराः पुरा नोनम् यस्तुतम् वस्पृथयन्द्रे अध्युत्थाभूतो पूर्वगोरभाङ्गेरः पुरप्रशस्तो अस्ति यज्ञैः भिवर्धयन्ति यदि स्तोतारशतं यत्सहस्रम् गृणन्ति गीर्वा न संसन्त तस्मै ज्ञैः अस्माजेहन्मह्याङ्गूढमस्मायस्तोत्रम् मतिभिरवाचि असत्यथा महतिवृत्तो जेन्द्रोः विश्वायोरविषावृतश्च क्षराणि ब्रह्म कदा स्तोत्रयसहस्रभोश्यन्दाः कदा सोमम् राजोऽस्य राजा गदाधियः करशिवाजारत्नाः करिः सिद्धतिम् जा त्रयेन्द्रभेन्द्रेर् वीरैर्वीरान्निलया से जया त्रिधाया शिवोष्वेन्द्रद्यम् सर्वध्येक्ष्यस्मे कर्गे स्वेत्तरिन्द्रयज्ञे विश्वस्वब्रह्म गृणवत्सविष्टा कराधियो करा गोमाघानि गच्छाः स गोमाघाजरित्रे अश्वश्चन्द्राजस्रवसो अधीदेहि वृक्षाः सुदुघामिन्द्रधेनुम् भरद्वाजेषु सुरुचोरुच्याः मा नूनम् वृजनमन्यथाक्रविदुरोप्रजिन्म सद्रामदा दत्तप विश्वजनन्या सद्राराजो धे पार्थिवासः सद्रामाया नाम भवोऽ विभक्तायद्धेवेषु धारय सा सुम् ते ुभे चक्रतुम् रञ्जन्त्यपि वृत्त हे तम् सद्धीरुदो वृष्यानिपुतस्त सुरेन्द्रम् समुद्रन्न सिन्धुक्त सङ्गिराभि सन्ति स नारस्कामुपा दृजाग्रनाश्चन्द्रस्य नामेकोविष्टस्य राजाः सोधिन भो माभिरायोः अर्जः असोज कालो युगे र्वाग्रहणम् विश्ववाहारन्दमुद्रेन्द्रयुक्ता सोहरयो वहन्तु केचिद्धिताः ये सर्वान्ते अद्य रो जो कर्माण्डुलाभूवन् राजा आश्रानाद्रेन्द्रं सुमेज्यन्तो वहे जनो जिन्म वायो न मृतमिदस्ये अरिष्ठस्य दक्षीणामि यीन्द्रो भो ना विगोर्विदा यया वज्रिमह्र्यास्यम्भोदय देवि सूरीन् इन्द्रो वाजस्य स्थ वीरस्य दातेन्द्रो गीर्भिर्वर्धता वृद्धमा इन्द्रो वृत्तम् अनिष्टास्तु तत्पाता सूरिः प्रेगदितो जानः अपादितबुदूश्चित्रहीम् वर्षुवतीन्द्रहूतिम् दैव्य रामञ्जनस्य िदासतो नाघोषादिन्द्रस्य दण्ड्याम्भो ध्यापरमया पुरायामय रविन्द्र मध्याघोषै ब्रह्मा जगयो दधिरेन्द्रे धान्माधाः शरदोजन्द्रनम् ये वानम् सहसे असामेवावृधानम् राधासे च श्रुताय महामुग्रमवादे विप्र नूनमावि वादे मन्द्रस्य गर्दिव्यस्य वह्नेर्विब्रामणमनोवस्य वह्वा अपादस्तस्य जलस्य देवेणो युवस्यग्रा अयम् धारः पर्ययत्री मुस्रा हृदये जोगा रुजधरु ग्राम्भिम् पणेन धा इमं के तु नुटश्चकार अयं रोदय दरुजोरुजानो ओयं वासयद्रेया पूर्वीः अयमीयदर्तयुग्भिरस्मैश्वर्भिदानाभीनाप्रा नोग्रे नानोग्रे नृदयप्राजन्निडप्यन्वसुदयाय ना पूर्वीः अपवोढ धीर सुलिः इन्द्रपि भदुभ्यम् सुतोमदाया वस्स हली सखाया उत प्रगाय गणा यज्ञाय गणते वयोधा अस्यानयिन् ने अपि भो विरप्सिन्ध्रम् तमस्मै समिद्धे अग्नौ सुयिन्द्रो महात्वा वायतामना ताजो ह भीमीन्द्रा याहि सुहेनाः आयाहितशा सदा जाधेन्द्र महामन सासोपवेयम् उप ब्रह्मा नियजस्तवासि अतो नो यज्ञमवासे नियुत्वान् स जोषाः पाहि गर्वनो मरुद्भिः अहेळमानमुपायाहि यज्ञम् तुभ्यम् भवन्त इन्द्र वस्तुदासाः गावो नवज्रेन्समो गो प्रथमो यज्ञियानाम् काकुत् सुकृताया वरिष्ठाय यासस्वपिभासि पूर्णम् र्युरस्तात्सन्ते वज्रो वर्धतामिन्द्र कव्यो एषो वृषभो विश्वय वृष्णे समाकारि सोमाः एतम् वीवारिवस्था जीवे प्रतिभियस्ते अन्नम् सुत सोमो असूदायि नवश्चयम् देयांशिवेदनाय ये दन्ति उपायाहि यज्ञम् तेन विश्वास्तवीषीराव्रीणस्व भयामधितेन्द्रयाह्यर्वाननम् ते सोमस्ततो मादयस्वा सुतेषु प्रास्माकाभृता सुप्रभृक्षो प्रत यस्मैषते विश्वानि विदुषे भर अरङ्गमाय जग्ध्वजे पश्चाद्वमेन्द्रम् सुते बिरिन्दुभिः यदि सुते बिरिन्दुभिः सो मेभिप्रतिभूषत वेदा विश्वस्य मेधीरोधृषत्तस्मा अस्माभिन्धसो ध्वर्यो प्रहरा सुतम् अयम् सोपा इन्द्रते सुतः पिब यस्य तीर सुमन्तम् च रक्षे अयम् रसोपा इन्द्रते सुतः पिब यस्य गा अन्तरस्व नोमदे ऋणा अवादृजः अयम्स शोभ इन्द्रदे सुधा पिब यस्य मन्दा नो अन्ध सोमाधो नन्द्रिषे समाः अयसोम इन्द्रदे सुतः पिब यो रागोरविन्दो योद्युम्नेर्ज्युम्नवत्तमः सोमः सुदस्तयिन्दतेऽस्ति स्वधापते मदाः यः शग्मस्तु वि शक्मदे राजोदामावादीनाम् सोमस्तुतश्रयिम् व्रतेऽस्तिस्वधाप देवदाः येन वृद्धो नो नीरोधिभिः सोमस्तुतश्रयिम् व्रतेऽस्तिस्वधाप देवदाः चमू अप्राहनम् गणीशे सव सत्पतिम् इन्द्रम् विश्वासहम् नष्टम् विश्वदर्शनीम् यम् वर्धयन्ती गिरःपदिम् तुलस राधातः तमिन्वस्य रोदासी देवी सुष्पम् सपर्यतः तद्वामुक्तस्य बर्हणेन्द्रायो वस्तुनैषणि पोनयस्योदयोऽपि यद्रोहम् यि सक्षिताः अपि तद्दक्षम् मित्रोऽ वीरीयान्वो देवेघ्योपस्यो अचैत् सौराभिर्धौतरीभिर्दृश्या पाजराभवत्सखिभ्यः य श्रेमनाम् श्रीदेवासोः अक्रन् राो राम महोवचोभिर्वमूर्धृस येण्यो व्यावह युमम् दक्षम् व्यावा देधा जनानाम् पूर्वीररादीः वर्यी यो वन गृयस चे भर्धनस्य सातामस्मा विड् न्नभूमयम् धात्रे हरिभोमाविवेल न के रामिर्दा किमङ्करध्वजोदानम् बाहुः मायश्च नेणोरीधामाते रेवतः सख्ये रीराम पूर्वेष्ट इन्द्रनिशिधोजने ऋष्णे प्रेणतः उदभ्राणी दस्तनयन्नियत्तेन्द्रो राधांस्य निगम्याः त्वमादिप्रतिवक्कारुधा यामा त्वा दा मा न आदाभन्मघोना अध्वर्यो वीरप्रमहे सुदामिन्द्राय भरतह्यस्य राजा यः पूर्व्याभिरुतनूत नाभिर्गेभिर्वा वृधे गृता अस्य वदे पुरुवर्पांसि विद्वानिन्द्रो वृत्राण्यप्रतीजघ तमप्रभो ऋमधूमन्दवस्मै सोमम् वीराय शिप्रजेऽपि मध्यै पादासुतमिन्द्रो अस्तु सोमम् हन्ता वृत्रम् वज्रे न मन्दसानः गन्तायज्ञम्प रामदचिदच्छावशुद्धी इदम् चत्वात्रमिन्द्रपालमिन्द्रस्य प्रियमृतमपायि मत्सत्यथा सौमनसाय देवम् या अस्मद्वेषो युजमद्यम्भान्दानो जगितो रसत्रोजामिमजामिन्द्रायनाम् अध्या आदेशामे च आो मघवन्निन्द्र ब्रहा अस्मभ्यं महि वरे मस्सु गङ्गाः अपां तो कस्य तन यस्य ज्येष्ठ इन्द्र सूर्येन्द्रे ग्रीष्माः नो अर्धम् सो वृष रथ अस्मत्रान्तो मृडा नो वज्रवाहो वृष्णे पदायसुजो वहन्तु आ ते वृषन् नृढा रोद्रो न वस्त्रर्हृदृषो नोन्वजो पदन्तः इन्द्र प्रदभ्यम् यिन्दृढमपि दूरयो मधुमेजोपराय अयम् देवः सहजाय मा न इन्द्रेण युजापनिमस्तभाजते अयम् स्वस्य पितुराजु धानीन्दूरमुष्णादसीवस्य माया अयमादृणो दुरसः सुपत्नीरजम् सूर्येरधा ज्योतिरन्तः अजलम् पृथा दिविरोशनेषु धृतेषु विन्दनमृतम् निगूढम् अयम् जावापृथिवी विष्काभायदयम् रथमयमक् सप्तरस्मिन् अयङङ्गो ऋतच्च भक्वन्तः सोमो दाधारथस इन्द्रमुत्सम् वक्षः सह शरीरम् द्वौ श्रजम् जाह्वनुलोभो विसर्गा वेदम् यन्त्रमुत्सम् नखश्च पृष्टश्च करौ च बाहूजङ्घे चोरू उदरं शिरश्च रोमाणि मांसम् रुधिरश्चि लज्जमेतच्छरीरम् जलभग्म् ध्रुवौ लाटे च तथा च कर्णौ हवस्तथा च ौ च रन्दाश्च तथैव जिह्वामेतच्छरीरम् मुकरत्रकोशम्